नारदपुराणं पूर्वार्थम् अध्यायम् 25 सनक उवाच पर्णाश्रमाचारविधिम् प्रवक्ष्यामि विशेषतः शृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा यस्वधर्मम् परित्यज्य परधर्मं समाचरेत् पाषण्ठः सहि विज्ञेयसर्वधर्म बहिष्कृतः गर्भाधानादिसंस्कार्यामन्त्रविधानतः स्त्रीणा मम पृथक् कार्या यथा कालं यथा विधि श्रीमन्दकर्म प्रथमं चतुर्थे मासि शस्यते षष्ठे वा सप्तमे वापि अष्टमे वापि कारयेद जादे पुत्रे पिता स्नात्वा सचैलं जातकर्म च कुर्या च च स्वस्ति वाचनपूर्वकं हेम्ना वा रचतेनापि वृद्धिश्राद्धं प्रकल्पयेद अन्येन कारयेद्यस्तु स चण्डालसमो भवेद कृत्वाभ्युदयिकं श्राद्धं पितापुत्रस्य वाग्यदः कुर्वेद नाम निर्देशं सुदकान्ते यथाविधि अस्पष्टमर्थकीनं चह्यदि गुर्वक्षरान्वितं न दद्यान्नाम विप्रेन्द्र तथा विषमाक्षरम् तृतीयवर्षे चौलं च चा पञ्चमे षष्टमिदे सप्तमे सप्तमे चाष्टमे वापि कुर्यात् गृह्योक्तमार्गतः दैवयोगादधिक्रान्ते गर्भाधानादिकर्मणि कर्तव्यपादकृच्छ्रो वै चौले त्वर्धं प्रकल्पयेद् गर्भाष्टमेष्टमे वाब्धे बडुकस्योपनायनम् आषोढोढषोढशाब्दपर्यन्तं गौणं कालमुशन्ति च गर्भैकादशमेब्धेदु राजन्यस्योपनायनम् अ द्वाविं शाब्दपर्यन्तं कालमाहुर्विपश्चिदः वैश्योपनायनं प्रोक्तं गर्भाद्वादशमे तथा चद्विंशाब्दपर्यन्तं गौणमाघुर्मनीषिणः एतत्कालावधेर्यस्य द्विजस्याधिक्रमो भवेद् सावित्रीपदिदं विद्या तं तु नैवा लभेत् कदा द्विजोपनयने विप्रमुख्यकालव्यधिक्रमे द्वादशाब्दं चरेत्कृत्रम् पश्चाचांद्राण तथा शपन चर्म सचरे अतिद विद्या भवद मऊर्जी प्रश्न विज्ञे धनुर्जा क्षत्रि से आवि वैश्यस्य विज्ञेया श्रूयतामजिने तथा विप्रस्य चोक्तमयणेयं रौरवं क्षत्रियस्य तु आजम्बेश्यस्य विज्ञेयं दण्डान्वक्ष्ये यथा क्रमं बालाशं ब्राह्मणस्योक्तं नृपश्यौ दुम्बरं तथा वैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं शृणुष्व मे विप्रस्य केषमानं स्यात् दाललाडं नृपस्य च नासाग्रसंमिदं दण्डं वैश्यस्याकुर्विपश्चितः तथा वासांसि वक्ष्यामि विप्रादीनां यथा क्रमम् कषायं चैव माञ्जिष्टं हरिद्रं च प्रकीर्तितम् उपनीतोऽद्विजा विप्र परिचर्यापरो गुरोः वेदग्रहणपर्यन्तं भवेद्वर्णि समित्कुशफलाधिकान् गोर्वर्थमाहरे नित्यं कल्ये कल्ये मुनीश्वर यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम नष्टे भ्रष्टे नवं मन्त्रा धृत्वा भ्रष्टं जले क्षिपेद वर्णिनो वर्तनं प्रागु भिक्षान्व केवलं भिक्षा च श्रोत्रियागारादाहरेत् प्रयतेन्द्रियः भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च भवदत्यं विषप्रोक्तं भिक्षाहरणकम्बः सा यम्प्रादर्वाग्निकार्यं यथा चारं जितेन्द्रियः कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् अग्निकार्यपरित्यागी पतित बुधैः ब्रह्मयज्ञविहीनश्च ब्रह्म परिकीर्तितः देवताभ्यर्चनं कुर्याश्रोष्णुष्वानुपदं कुर्यात् शुश्रूषानुपदं गुरोः भिक्षा न भोजये नित्यं नैका नाशी कदाचन आनीया निन्द्रभिप्राणां गृहाद्भिक्षां जितेन्द्रियः निवेद्य गुरवेश्वीयाद्भाग्यदस्तदनुज्ञया माधुस्त्रीमां सलवणं ताम्बूलं दन्तधावनम् उच्छिष्टभोजनं चैव दिव स्वापं च वर्जयेद् चत्रपादुगन्धांश्च तथा माल्यानुलेपनं जलखेलिं नृत्यगीतवाद्यं तु परिवर्जयेद् परिपादं चोपतापं विप्रलापं तद्धाञ्जनं पाषण्डजनसंयोगं शूद्रसङ्गं च वर्जयेद अभिवादनशीलस्याद्वृद्धेषु च यथाक्रमं ज्ञानवृद्धास्तपो वृद्धा वयोवृद्धा इति त्रयः आध्यात्मिकादिदुःखानि निवारयदि यो गुरुः वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेद् असा वहमिति ब्रूया द्विजो वैश्यभिवादने नाभिवाद्याश्च विप्रनक्षत्रियाद्या कथञ्चन नास्तिकं भिन्नमर्यादं कृघ्नम् या ग्रामयाचकं चैव जगित कदाचिन्नाभिवादयेदपाषण्डम्पतितं व्रत्यं तथा नक्षत्रजीविनम् तथा पातकिनं चैव कदाचिन्नाभिवादयेद् उन्मत्तं च षडं धूर्तं तथा अभ्यक्रशिरसं चैव जपन्तन्नाभिवादयेद् विवादशीलिनं चण्डं वमं तं जलमभ्यगं भिक्षान्नधारिणं चैव शयानं नाभिवादयेद् भर्तृघ्नीपुष्पिणीं जारां सूदिकां गर्भपादिनीं कृदग्निं च तथा चण्डीं कथा चिह्नाभिवादयेत् सभायां यज्ञशालायां प्रत्येकं तु नमस्कारो कन्दिपुण्यं पुरा कृतं श्राद्धं तथा दानं देवताभ्यार्चनं तथा दा यत्नं च तर्पणं चैव कुर्वन्तं नाभिवादयेद् हृदयभिवादने यस्तु न कुर्यात् प्रतिवादनं नाभिवाद्यस्य विज्ञेयो यया शूद्रस्तथैव स प्रक्षाल्य पादवाचम्य गुरोरभिमुखः तस्य पादौ च सङ्गृह्य अधीयत विचक्षणः अष्टकासु चतुर्दश्यां प्रदीप पर्वणोस्तथा महाभरण्यं विप्रेद्रं श्रवणद्वादशीदिने भाद्रपदपरपक्षे द्वितीयायां तथैव च माकस्य शुक्लसप्तम्यां नवम्यामाश्विनस्य च परिवेषं गदे सूर्ये श्रोत्रिये गृहमागदे वन्दिदे ब्रह्मणे चैव प्रवृद्धकलहे तथा सन्ध्यायां गर्जिते मे परिवर्षणे उल्कासनिप्रपादे प्रपादेज तथा विप्रेवमानिदे मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि नाधीदद्विज कश्चित् सर्वकर्मफलोत्सुकः तृतीया प्राधवे शुक्लभाद्रे कृष्णा कार्तिके नवमी पञ्चदशी तिथिः यदा युगाद्या करिदा तस्य अक्षय कारिकाः मन्वादींश्च प्रवक्ष्यामि शृणुष्व सुमाखितः अक्षयो शुक्लनवमी कार्तिके द्वादशी सिधा तृतीयचैत्रमासस्य तदा भाद्रपदस्य च आषाढ शुक्लदशमी सिधामाघस्य सप्तमी श्रावणस्य अष्टमी कृष्ण ततः षाठी च पूर्णमा फाल्गुनस्य त्वमवस्या पौषस्य एकादशी सिदा कार्तिकी फाल्गुनि चैत्रीं जैष्ठी पञ्चदशी सिदा मन्वादयसमाख्याता दत्तस्य क्षयकारिकाः द्विजय श्रद्धं च कर्तव्यं मन्वादिषु श्राद्धे निमन्त्रिते चैव ग्रहगणे चन्द्रसूद्ययोः अयनद्वितये चैव तथा भूकम्बने मुने गलग्रहे दुर्दिने च न अधीतकदाचन एवमादिषु सर्वेषु अनध्यायेषु नारद अधीयता सुमूढानां प्रजाम् प्रज्ञां यशश्रियम् आयुष्यं बलमारोग्यं निकृन्तदियमस्वयम् अनध्याये दुयोधि देत्तं विद्या ब्रह्म खादकं नदं सम्भाषयेद्विप्र नदेन सह संवसेद् कुण्डगोलकयो केजिजडादीनां च नारद वदन्ति चोपनयनम् तत्पुत्रादिषु केचन अनधीत्यदु यो वेदमन्त्रय कुरुदेश्रमम् शूद्रतुल्यस्य विज्ञयो नरकस्य प्रियो तिथिः अनधीतश्रुतिर्विप्र आचारप्रतिपद्यते नाचारफलमान्भो यथा शूद्रस्तथैव सह नित्यं नैमित्तिकं काम्यं यच्छान्यत्कर्मवैदिकम् अनधीतस्य विप्रस्य सर्वं भवति निष्फलं शब्दब्रह्ममयो विष्णोर्वेदः साक्षाद्धरि स्मृतः वेदाध्यायी ततो विप्रः सर्वान् कामानवाप्नुयात् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचार्येषु वर्णाश्रम धर्मेष्वध्ययनादिधर्मनिरूपणं नाम पञ्चविंशोऽध्यायः ओम्